अथा ष्टके पञ्चमः प्रश्नः प्रारम्भः ओ... प्राणारक्षति विश्वमेजत हिर्यो भोधा बहूनि सैत्सर्वम् यानसे य देवो देवेषु विभोरन्तः आवृतोदाख्ये त्रियद्भगदृशा तमित्प्राणम् मनसापशिक्षत अग्रम् देवानामिदमुत्कनाहविः मनसश्चित्त्वेदम् दं भूतम् भव्यम् च गुप्यते तत् देवेश्वक्रियम् आमवेजपुरश्चरम् सहश्रेयश्रेयसि कर्मणयज्ञागुहविराट् देवी पुरोहिता विवाडनपायिनी यया रूपाणि बहुधा वदन्ति एषा पुंसि परमे चरित्रेः स्फुरन्ती जुषधा हविः चक्षुर्देवानाम् ज्योतिर्मृते न्यक्तम् तस्य विज्ञाना एव हृदा विदीयते तस्य सु धीमहि आनोहासीद्विजलक्षणम् आयुण्णप्रदीहे जिताम् आनन्धाश्चक्षुषा वयम् जीवाज्योतिर्धीमहि सुमज्योतिरुतामदम् श्रोत्रेण भद्रमुदशृण्ण्वन्ति सत्यम् श्रोत्रेण वाचुम्बहतोमानाम् श्रोत्रेण मोदस्य महस्य श्रूयते श्रोत्रेण सर्वादिश्रुणामि येन प्राच्यावदक्षिणाोत्रम् परि सर्वम् बभूवो अस्यमिदञ्जया स न राष्ट्रेषुधातु ृद्धिम् जनुषामुखस्थम् निहराष्ट्रमाहाष्ट्रमिहरोहितः पृथव्यान्मास्तु तस्मभ्यम् जावापृथिवीषत्व राष्ट्रन्दुहाथामिह देवदेवीमोहिरुहश्च दिवम् गत्वाय महितामहिम्ना राष्ट्रमुत्त्वयि सहस्वेन <tě> आगो यास्ते सस्तमसादम्बभो नायत्रम् वत्समृतास्तास्ताविशन्दस्वेन सन्मादा पुत्रामृतृष्णिमाधरः रोहितो हत्या वा पृथिवी बलेन द्धमहते सौभगाय समद्युम्नान्युत्तमानि सन्धो सन्द्या शत्रो यथामुखिष्ठा महापुंसि पुनर्म इन्द्रो महवा ददातु धनानि शुक्रोधन्यस्वराधाः प्रमाजीनम् प्रणता सृष्टीनास्य हविषोषाणः यानि न जिनन्दनानि योरमन्युनाः इन्द्रानुविन्दनस्तानि अनेन हविषामनः इन्द्रः परिभाभ्योता कामायित्वा समृधे त्वा आगोलिनस्यावसे काममस्य समर्थीयः दे आगोलिम् देवी प्ररोदधे यज्ञस्य माता सुभवामे अस्तु यदिच्छामि मनसा सकामः निविष्टम् से रत्निरत्नीकौद्यतमयो वीडुपाणिः सहस्रपाथा अक्षरासमेति आशान्ताशालेभ्यः श्रिरभ्यमृतेभ्यः इदम् भोगस्याध्यक्षेभ्यः यम् विश्वाशामधुनासकम् सृजामिषयो भवन्तुः सन्तु सर्वे रः सोमो वर्णो मित्रेन्द्रः बृहस्पतिः सविताः सहस्वी पुरुषा नो गोभिरवसा सरस्वती अष्टारूपाणि समनत्वष्टारूपाणि दधती सरस्वतीभवम् सविता नो ददातु ोमो अग्निः धीमहि प्रलेके पूर्वैव प्रथे कामो अस्मेयागोभिरश्व्रवताराधसापप्रथश्च स्वर्यवो मतिभिस्तोभ्यं विप्राःवाहकुशिदासोक्रन् इन्दस्य वीर्याणि प्रबोधम् तानि चकारप्रथमानि अहन्न हिमन्वस्थदत्त प्रवक्षिणाभिनत्पर्वनाम् अहन्न हिम्पर्वतेजि श्रीयाणम् कष्टाः श्रीवत्यग्नस्पर्यन्तदक्षा माश्रायवेन वस्यन्दमानाः अञ्जस्य मधुमव जनापः श्रायुमानोणीतसोमम् त्रिकतृकेश्वरपिवत्सुरस्य आसायकम् अघवा दत्तवज्रम् अहन्नेनम् प्रतिभजामहीनाम् इन्द्रायम् प्रतिभजामहीनाम् आह्नायि नाममिनात्वायाः ्यामुषासम् आदिज्ञाशत्रोन्न किल विवित्से अहम् वृत्रम् वृत्तरव्यंसम् इन्द्रोपेण महता वधेन स्कन्धाकुंसी वपुषेनाविवृत्नैव दुर्मधा हि जुह्वे महावीरन्द्रविवादमृशम् वधाना सृगुजानाशत्रुः विश्वव्याया रति दक्षिणे श्रुत श्रवस्य यानसि श्रुत विश्वस्मायि युध्यते देवताव्यमोहिषे विश्वस्मायश्रुकृदेवारमन्वदि अग्निर्वाभ्युन्मदिकामीरयन् पूर्वथाः केतुनादुषनुष्ठन्नाग्ने अभिहर्यः आनम्बुदाङ्गोमदीमिषन् अश्विना यज्ञमागतम् दातुषप्रदुसारक्षतुम् निर्माणाम्प्रच्छन्हे सरस्वति सुभरे वाजिनीवदि सत्यवाचेभरे मा हवींषी सुभगादस्याम यज्ञो रायो यज्ञैः शिवसूनाम् यज्ञस्यक्षितीनाम् यज्ञ इष्टः पूर्वज यज्ञा ब्रह्मण्वाग्नमर्प्येतु देवान् अयम् यज्ञदाङ्गोभिरश्वः इदम् बहिरतिबरिहीकुष्यज्ञा इमम् यज्ञम् विश्वे भवन्तु देवाः भग एव भगवाग्मस्तु देवाः नेन वयम् भगवन्तः स्याम तन्द्वा भगसर्वैद्याहवीमि समा णेदर्भगसत्यराधः भगेमान् मणोदेवरश्वः शश्वज इष्टम् लोकम् परमारुरोह इयमेव सा या प्रथमा वियोच्यत सा रूपाणि गुरुदेवम् च देवीदस्त ्यागस्तन्तोन् आवो इन्दो दो अद्य मरुतो ध्वनन्दि अयम् यो अग्निर्मरुदः समिद्धः एतन्ध्रवयोः मृगानभीमास्तविषेकुरुमिभिः अग्नयोमशिषु जानारुजीषणः भृमिन्दमन्त उपगा वृन्वदाचक्रमेतृदेवः आवेदसन्निलपृष्ठम् रहन्तम् बृहस्पतिष्ठः ऊष्रदे वयम् नरिष्येम कदाचार्यास्ते पूषन्नावो अङ्कस्वद्रे हिरण्यैरङ्गरिक्षे चरन्ति याभिर्यासिधूत्यागुंसौर्यस्य कामेन कृतश्रव इच्छमानः अरण्यान्यसौ या प्रेभ्यसि तथा वैवादम् सायम् शकटीरिव सत्यवावधीत् यम् अकृक्षदिति मन्यते ना्यानिनाभिगच्छति कामन्यषम् आर्तहत्याय शवसेनासाह्याय च इन्द्रत्वावर्तया महि सुब्रह्माणम् वेदवन्दम् बृहन्तम् वृङ्गभीरम् वृथबुद्ध ी इमे शन्ते अग्निस्सहारस्तु शन्द्या वा पृथिवी सहोषधीभिः शन्ते तु प्रदिशा भवन्तु या देवी सुरस्वप्रदिशः पत्नीरविचोर्योष्टे आसा आन्द्वा जरसाद दामी प्रयक्ष्म एद निर्नतं पराथी अमोज एक्ष्मा आतुरिता दवर्ती रखपाचान निरत्य चौदमोची आहा अवर्त्यम विधत्योनम अप्यपर्धत्रे सुकृतस्यलोके सुर्यमुदम् तमस्द्ग्राफ्याजित बेबामु� ीर्घमद्धायिन् अनन्दमथमनुप्यमानाः नित्ये सुजाते हिमवत्सुभे शिरम् हयो भोः सन्दमायुजो पदो नो देहि सीबले पदो गिरिभ्यो अधियत्प्रथापसि सपुरुशोभमाना कन्ये विशुभ्रे तान् तामुत्कलाः विषावर्धयन्ति नश्यन् जन्मभिः जन्मान्यवरैप्राणि वेदानि देवा इयमस्मीतिमाम् चक्षुश्रावम् संवृताम् हित्वा शरीरम् जरतः परस्ताद् आबोधिम् बोधिम् भयमश्नमामहि इमा एतावृतोया प्रथमा वि सा देव्यः देवम् चरूपा शश्वतीर्नावपृज्यन्ति पुत्राणा मूर्म्या आदित्याम् देवानाम् कृतुना कृतामेम्नास्ला अभिभूतिरहमागमम्वायुधा आस्वासा सुदुःसह इदम् वच्चो अग्निनादत्तमागाराद्यित्वाय शतसारदाय हते वीत्याय आगिरसि विश्वागिरसि सर्वायुरसि सर्वमायिरसि सर्वम् महागुर्भूयात् सर्वमागुर्गेशम् वस्वाह अग्निर्धर्मेणान्नादः मृत्युर्धर्मेणान्नपतिः ब्रह्मक्षत्रज्ञस्वाहाप्रणेता बृहस्पतिप्रलयेतान्थाः चन्द्रमाः पुनरस स्वाहा अग्निरन्नादोन्नपतिः अन्नाद्यस्वाहा सो महाराजाराजपतिः यज्ञे स्वाहा इन्द्रालपतिः यज्ञेजमानाय ददास्वाहार्ब्रह्म ब्रह्मपतिः ब्रह्मास्मिन् यज्ञेजमानाय ददाहा सविता राष्ट्र नो राष्ट्रपतिः य ददाय ददाय ददानागोरोपकरिः यज्ञे पशोन् ददादस्वाहा सतीश्यप्रवान् ङ्गे समत्सुवृतः अस्माकम् आवाजेरुणागवद इन्द्रायस्मादेराय सुजाजवतनादेहि कृताम्प्रतिमेद्रः प्रहर्द्यानि कृतमञ्जस्मि हर्यस्नाय वरदा सजोषाः इन्द्रउत्तवत्त्मनावावृधाना सुनासीदेविरिन्द्रजस्व वैश्वर्वर्णापुरेदेन्द्रं प्रियमेधात्रयो नार्धमाना अवदतां नमोर्णेपुत्रिक्षो मध्यस्थान दयावत्थान प्रादेंद्राय गायता वरदावृतां तं एतद्योत्रेन्द्र सबसा न्द स्ववर्णम् बृहन्तम् योऽयम् वादस्वस्तुभित्सदानः नागे वर्णोभयत्वदन्तम् रावेम् त्वाभ्य वरण्यभक् सन्दनस्य दौदन् तमस्य अनोजगनमभरण्यं शन्नादेवी रक्षितये आवाहरन्त भेदये सञ्जयः रक्षितवन्दना ईशनागारियाणा क्षिन्देशरुदिनीना अपोयाजाणनिषेणं अप्समे सर्वोपकरवेद अन्दरविस्वां भेदजा तक्किन्दविश्वजंघवं आवष्ट विश्वभेददेह करपसुदेय नरस्तये गोश्रश्वस्य विनमतु तेनमे वाजिनीवति योनिरस्मि ममैव समह्यान्य पुत्रे लोककृत्या यो ज्योतिषात्मा वैश्वानरेणोपदिष्टेयोः आरोह तथा नोक्ता यज्ञमासीदस्वान् जायमानस्येभ्यो हव्यम् जानन् यिजागो तेष्कृतवीगदृगे श्रीम् ए युम्पदेहन्तो स्मात्समुद्रात्प्रहतो दीर्घमाय विद्यमानाय कृते प्रतिमानमेतत् अर्कस्य राधप्रयुतम् पुरुत्नार्करूपम् युमानमेतिरक्षाः श्वायन्तो गव्यन्तो भाजयन्तः हवामहे त्वोपगन्धवा उ आभूषन्तस्वासुमतोऽनुवायाम् अयमिन्द्रत्वा सुम इति द्वितीयाष्टके पञ्चमः समाप्तः